महावाक्यरत्नावले नवमम् प्रकरणम् अथ सार्धान्तिकस्वानुभूतिवाक्यानि अष्टादशोत्तरशतम् योऽसावसौ पुरुषः सोऽहमस्मि तद्योऽहंसोऽसौ योऽसौ सोऽहम् तं शान्तम् अचलम् अद्वयानन्दच्यद्घन एवास्मि तत्पूर्णानन्दैकबोधस्तद्ब्रह्मैवाहमस्मि त्वं वाहमस्मि भगवो देवते देवतेऽहं वै हम परिपूर्णो परिपूर्णोऽहमस्मि शुद्धाद्वैतब्रह्माहम् वाचाम् अगोचरनिराकारपरब्रह्मस्वरूपोऽहमेव सदोज्वलो मेव तत्कार्यहे नः स्वात्मा बन्धहरः सर्वदाद्वैतरहित आनन्दरूपः सर्वादिष्टानसन्मात्रो निरस्ताविद्यातमोहमोहोहमे बाहुमौ तद्यत्परं ब्रह्म रामचन्द्रश्चिदात्मकः सोऽहमौ तद्रामभद्रः परञ्ज्योतिरसोऽहमौ तत्परः परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्तसत्य परमानन्दानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि त्रिषु धामसु यद्भोज्यम् भोक्ता यद्भवेत् तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः मय्येव सकलञ्जातं मै सर्वं प्रतिष्ठितम् मयि सर्वं लयं याति तद्ब्रह्मद्वयमस्म्यहम् निर्वाणोऽस्मे निरोस्मे निरंशोऽस्मे निरेप्सितः अचिदात्मास्मे निरंशोऽस्मे परापरविवर्जितः ब्रह्मैवाहं सर्ववेदान्तवेद्यं नाहं वेद्यं व्योमवातादिरूपम् रूपं नाहं नाम नाहं न कर्म ब्रह्मैवाहं सच्चिदानन्दरूपम् नित्यशुद्धो बद्धमुक्तस्वभावः सत्यसूक्ष्मसंविद्भुश्चाद्वितीयः आनन्दाब्धिर्यत्परः सोऽहमस्मि प्रत्यग्धातुर्नातृसंशेतिरस्ति सोऽहमर्कः परं ज्योतिरर्कज्योतिरहं शिवः आत्मज्योतिरहं शुक्रः सर्वज्योतिरसावहोम् द्वैतभावविमुक्तोऽस्मे सच्चिदानन्दलक्षणः शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः निष्क्रियोऽस्म्यविकारोऽस्मि निर्गुणोऽस्मे निराकृतेः निर्विकल्पोऽस्मि नित्योऽस्मे निरालम्बोऽस्मि निर्द्वयः केवलाखण्डबोधोऽहं स्वानन्दोऽहं निरन्तरः सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् केवलं चित्सजानन्दम् ब्रह्मैवाहं जनार्दनः अशुभाशुभसङ्कल्पैः संशान्तोऽस्मि निरामयः नष्टेष्टानिष्टकलनः संविन्मात्रपरोऽस्म्यहम् अन्तर्याम्यहमग्राह्यो निर्देश्योऽहमलक्षणः अद्वैतोऽहं पूर्णोऽहम् अबाह्योऽहम् अनन्तरः अद्वयानन्दविज्ञानगणोऽस्म्यहम् अविक्रयः अविद्याकार्यहीनोऽहं अवाङ्मनसगोचरः आत्मचैतन्यरूपोऽहम् अहम् आनन्दचिद्घनः आप्तकामोऽहम् आकाशात् परमात्मेश्वरोऽस्म्यहम् चिदानन्दोऽस्म्यहं चेताचिद्घनश्चिन्मयोऽस्म्यहम् ज्योतिर्मयोऽस्म्यहं जायाज्योतिषां ज्योतिरस्म्यहम् नित्योऽहं निरवद्योऽहं निष्क्रियोमि निरञ्जनः निर्मलो निर्विकल्पोऽहं निराख्यातोऽस्मि निश्चलः निर्विकारो नित्यपूतो निर्गुणो निस्पृहोऽस्म्यहम् निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् प्रज्ञातोऽहं प्रशान्तोऽहं प्रकाशः परमेश्वरः एकदा चिन्त्यमानोऽहं द्वैताद्वैतद्विलक्षणः शुद्धोऽस्मि शुक्रः शान्तोऽस्मि शाश्वतोऽस्मि अहं सकृद्विभातोऽस्मि स्वयमहिम्ने सुदास्तितः मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् द्वैताद्वैतविहेनोऽस्मि द्वन्द्वहेनोऽस्मे भावाभावविहेनोऽस्मि भाषाहेनोऽस्मि भाष्म्यहम् शून्याशून्यविहेनोऽस्मि शोभनाशोभनोऽस्म्यहम् सदसद्भेदहीनोऽस्मि सङ्कल्परहितोऽस्म्यहम् नानात्मभेदहीनोऽस्मि यखण्डानन्दविग्रहः बन्धमोक्षविहीनोऽस्मि शुद्धम् ब्रह्मास्मि सोऽस्म्यहम् चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परात्परः सदा विचाररूपोऽस्मे निर्विचारोऽस्मि सोऽस्म्यहम् ध्यातृध्यानविहेनोऽस्मे ध्येयहेनोऽस्मे सोऽस्म्यहम् लक्षालक्ष्यविहेनोऽस्मे लयहे नरसोऽस्म्यहम् मातृमानविहेनोऽस्मि मेयहेनशिवोऽस्म्यहम् सर्वेन्द्रियविहेनोऽस्मि सर्वकर्मकृदप्यहम् मुदितामुदिताख्योऽस्मि सर्वमौनफलोऽस्म्यहम् षड्विकारविहीनोऽस्मि षड्कोशरहितोऽस्म्यहम् देशकालविमुक्तोऽस्मि दिगम्बरसुकोऽस्म्यहम् अखण्डाकाशरूपोऽस्मि अखण्डाकारमस्म्यहम् प्रपञ्चमुक्तचित्तोऽस्मि प्रपञ्चरहितोऽस्म्यहम् सर्वप्रकाशरूपोऽस्मि चिन्मातृज्योतिरस्म्यहम् कालत्रयविमुक्तोऽस्मि कामादिरहितोऽस्म्यहम् मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा गन्तव्यदेशहीनोऽस्मि गमनादिविवर्जितः सर्वदा सर्वसमरूपोऽस्मि शान्तोऽस्मि पुरुषोत्तमः चिदक्षरोऽहं सत्योऽहं वासुदेवोजरोमरः अहमेवाक्षरं ब्रह्म वासुदेवाख्यमयमद्वयम् परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् केवलं ज्ञानरूपोऽहं केवलं परमस्म्यहम् केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् केवलं सत्यरूपोऽहमहं त्यक्त्वाहमस्म्यहम् केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः केवलाकाररूपोऽस्मि शुद्धरूपोऽस्मि अहं सदा निर्विकल्पस्वरूपोऽस्मि निरेहोऽस्मि निरामयः अपरिच्छिन्नरूपोऽस्मि अनन्तानन्दरूपवान् आत्मा रामस्वरूपोऽस्मि अहम् आत्मा सुदाशिवः आदिमध्यान्तशून्योऽस्मि याकाशसदृशोऽस्म्यहम् नित्यशुद्धानचिदानन्दः सत्तामात्रोऽहमव्ययः नित्यबुद्धविशुद्धैकः सच्चिदानन्दमस्म्यहम् भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्गणोऽस्म्यहम् चित्तवृत्तिविहेनोऽहं चिदात्मैकरसोऽस्म्यहम् अहम् ब्रह्मैव सर्वम् स्यादहं चैतन्यमेव हि अहमेवाहमेवास्मि भूमाकारस्वरूपवान् अहमेव महानात्मा अहमेव परात्परः अहम् अन्यवदा भामि अहमेव शरीरवत् अहं शिष्यवदा भामि अहं लोकत्रयाश्रयः अहं कालत्रयातीतो यहं वेदैरुपासितः अहं शास्त्रेण निर्णीत अहम् चित्ते व्यवस्थितः आनन्दघन एवाहमहं ब्रह्मास्मि केवलम् आत्मनात्मनितृप्तोऽस्मि यरूपो यहमव्ययः आकाशादपि सूक्ष्मोऽहम् आद्यन्ताभाववानहम् सत्तामात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघणोऽस्म्यहम् नामरूपविमुक्तोऽहमहम् आनन्दविग्रहः आदिचैतन्यमात्रोऽहमखण्डैकरसोऽस्म्यहम् सर्वत्र पूर्णरूपोऽहं परामृतरसोऽस्म्यहम् एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः अहमेव परं ब्रह्म यहमेव गुरोर्गुरुः सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहा तुर्या तुर्यप्रकाशोऽस्मि तुर्या तुर्यादिवर्जितः दृश्यस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् अलेपकं सर्वगतं यद् अव्ययं तदेव चाहं सकलं विमुक्त ओम् अहं ब्रह्माष्मिमन्त्रोऽयं जन्मपापं विनाशयेत् अहं ब्रह्माष्मिमन्त्रोऽयं भेदबुद्धिं विनाशयेत् अहं ब्रह्माष्मिमन्त्रोऽयं कोटिदोषं विनाशयेत् अहम् ब्रह्मास्मिमन्त्रोऽयम् ज्ञानानन्दम् प्रयच्छति सर्वमन्त्रान् समुत्सृज्य इमम् मन्त्रम् शुभ्यसेत् सद्यो मोक्षम् अवाप्नोति नास्ति सन्देहमण्मपि इति स्वानुभूतिवाक्यानि अष्टादशोत्तरशतम् नवमं प्रकरणं समाप्तम्